न्वह मान्विद्वनान्यन्वोषधीरनुपर्वता सह अरन्वीन्द्रगुं रोदसी वावसाने अन्वापो अतिशतजायमानम् अनुतेताय महेन्द्रियाय सत्राथे विश्रमणवृत्रहत्ये अन्मक्षत्रमनसहो विलत्रेन्द्रदेवभिरणुते न शक्ये इन्द्राणीमासुनारिषु सुपत्नीमश्रवम् न ह्यस्यापरम् च नरसामरदेपतिः नाहमिन्द्राणि विषाकपे ऋते यस्येदमप्यगम् हविः प्रियम् देवेषु गच्छति यो जात एव मनस्वान् देवो देवान् कृतुना पर्यभूषत् यस्य सुष्मा त्रोदशी अभ्यसेतान् नम्नस्य मह्ना सजना हरीन्द्रः वागे महीन्द्रोऽुर्ग्रथमन्यवो यत्समनन्दधेनाः पतादित्यम् नर्यस्य बाहुवान्मा ते मनोविष्पद्रिघट्मिचारी मानोमद्धीराभरा तद्धि तन्न प्रभाेदातवे भूरियत्ते नव्येदेष्टेशस्ते अस्मिन् ब्रभ्रवामभयमिन्द्रस्तुबन्तः आदौ भरमाखिले तत्परिष्ठाद्विद्माहि त्वा वसुपतिम् वसूना इन्द्रयत्रे माखिलम् तमस्य स्पभ्यम् तद्धर्यश्वप्रयम्भितारकम् हवामह इन्द्रमाहविषाभयम् उभाहिहस्तः वसुना मृतस्वा प्रयच्छदक्षिणादोदसव्यात् प्रदाता वज्रेवषभस्तुरागाच्छुष्मे राजा, राजा भ्रहासमभावा अस्मिन् यज्ञे बलिहिष्यानिषर्द्याथाभवयतमाना यशय्या इन्द्रः सुत्रा भास्वभागम् अगोभिः स्वर्णेको भवत् विश्ववेदा बाधतान्वेषोऽभयन्तृणोदु सवेर्यस्य पतयस्याम अस्य वैगुंसुमतौ यज्ञ यस्यापि भद्रेधौ मनसे स्याम स्वसुत्रा मा स्ववागम् इन्द्रो अस्मे आराचिद्वेधस्व न तुर्ययोतुर्नः समा सन्तु दृजान्तो या धर्मदेवष्वस्मै पुरो रथमिन्द्राय शोषमक्षत अभीकेचितुलोककृत्सङ्गे अस्माकम् बोधिचोदिता नभन्तामन्यकेशाकाधिधन्वसु ओ नुमते पुरोडागमष्टाकपालम् निर्वपतिधेनुर्दक्षिणाय प्रत्यञ्चायावशीयन्ते तन्नैरमेकपालम् कृष्णम् वासः कृष्णतोषन् दक्षिणा वेहि स्वाहा हुबिन्दुषा ने भागो भूदय विष्पद्यति भुञ्जे मम ब्रह्म स्वाहा नमो ी दक्षिणाग्ने सोमीयमेकादश कपाल्यं कपालं वै दक्षिणाग्लभयीभो भी दक्षिणैन्द्रा ग्रन्थादशपालं वैश्वदेवन्तरं प्रथमज दक्षिणा सौम्यग्निश्या मागन्तरं वा स्वक्षिणा आग्नेयमष्टाकपालम् निर्प्रणपति सौम्यम् चलकम् सा भित्रम् द्वादशकपालकम् सारस्वतम् चलम् पौष्णम् चलम् मारुदकम् सप्तकपालम् वैश्वदेवी मामिक्षाञ्ज्यावापथिव्यमेककपालम् अयेन्द्रायकमेकादशकपालम् मारुदेवामिक्षाम् वारुणे वामिक्षाङ्कायमेककपालम् प्रजास्याने हवामहे मरुतो यज्ञवाहसः करम्भेन सजोषसः मोषो न इन्द्रपृत्सु देवास्तु स्मते सुस्मिन्नभया महे क्यस्य मेषुषो यज्ञ्या यद्ग्रामे यदलङ्गे यत्सभाया यदिन्द्रिये यच्छोद्रे यदर्यरेणश्च क्रमा वयम् यदेकस्याधिधर्मणि तस्या वैदनमधिस्वाहाक्रन् कर्म कर्मकृतः सह वाचामयोभुवा देवेभ्यः कर्म कृत्वा स्तम् प्रेतसुदानवः अग्नये लेखपदे पुरोदागमष्टाकपालम् निर्वपति साकं सौर्येणाह्यगामरुद्भ्यः सान्तवरेभ्य मध्यन्तरे जलम् मरुद्वहमेधेभ्यः सर्वासाम् युद्धे सायञ्चरम् गोर्णादपधिपरापद सुनरापदे पवित्रीनावहायिषमोर्जगुंशदक्रतो देहि मे ददामि दे निमेधे विनितेदथे निहारमिन्निमे हरा निहारन्निहरामि दे परद्भ्यः क्रीडेभ्यः पुरोडाशकम् सप्तकपालम् निर्वपदि सागकम् सौर्येणभट्टाकपालन्निर्पदि सौम्यम् चरकम् सावित्रम् द्वादशकपालकम् सारस्वतम् चरम् पौष्टम् चरुमैन् राष्ट्रमेकादशकपालभयन्दरम् भयेष्वकर्मणमेककपालम् सोमाय पितृपदे पुरोडाशकम् षट्कपालन्यर्वपरि पितृभ्यो परिषिषद्भ्यो धानाः पितृभ्योग्निष्वास्तेभ्योऽ्याये दुग्धे मन्थमे दत्ते तदगे दत्त्वा मन्वे दत्ते पितामहप्रपितामहगे दत्त्वा मन्वप्रपितमासा भावम् मन्दुंसुषम् दृशन् त्वा वयम् अघमन्मन्दि श्रीमहि प्रकोणम् पूर्णबन्धुरस्तुतो या शिवशाकुम् मनो रोन्विन्द्रदेहरी अक्षन्न मे मदन्त ह्यव प्रियाधोषदा अस्तोषदः स्वभावभोरि प्राणविष्ठयामी रोन्विन्द्रदेहरी अक्षम्पितरो मे मदन्तपितरोति तृपन्तपितरोमि भृजन्त पितरः हरेतपितरः स्वाम्यागम्भीरे पतिभिः पूर्व्यैः अथा वित्रेम् समितत्राजुम् अपीत यमेणधमानम् वदन्ति मानोन्वाहुवामहे आराशुम् श्रेण स्तोमेन पितृणाञ्च मन्मभिः आनरे पुनः क्रत्वे दक्षाय जीवसे योक्तसूर्यम् दृशे पुनर्नः पितरोम नोदृदैव्यो जनः जीवम् रातकुम् स न्तरिक्षम् पृथिवे मुद्याङन्मातरम् पितरम् पितरं अरभ्य मातस्मादेन सोकार्यः पत्यप्रमुखायानि च कर्म निर्ववर्त्यै गमनिरिक्तम् जावन्तो वृत्याभ्यक्रमकरम् पशू नागुम् शर्माजमाणस्य शर्म मे यक्षैक एव रुद्रो न द्वितीयाञ्जुरस्वैषज रुद्रभागस्यास्पष्टाम् विगया तञ्जुरस्वभेडजन्तयराय भेडलमस्मभ्यम् भेडजगम् सुभेडलम् यथा सति सुखम् मेधाय मेष्या अवाम्बरुद्रमति मह्यवधेवन्त्यम्बकम् यथा न श्रेयशकरत्यथा नोऽपस्य तक्रद्यथा न पशुमतकरद्यथा न व्यवसायम्बके यजामहे सुगन्धिम् पुष्ट्यवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृधाय भागस्तं एष तेत्वभागस्तम् विपस्पतेनावदेन परोमोचमतो देह्यवतन्वापिना जहस्तृप्तिवासाः हीन्द्राग्द्वादशगपालं वैश्वदेवं चलमिन्द्रायशदासे रायपटाशं द्वादशकपालं वायव्यं पयः सौर्यमेकगपालं द्वादश खलु दक्षिणाग्नेयमष्टागपालं निर्वपति रौद्रङ्गाविधृगञ्चलमयेन्द्रं दशि वारुणं यमभयं जलं महिमे धेलं दक्षिणाय देवा ृणे त्रा उत्तरदो वरुणेत्रा उपरिषदिनेत्रा लक्ष्मस्त्रे नो नस्त्रे भस्वाहासमोढतुं रक्षन्दं रक्षहितमाघम् रक्षोऽभि सन्दहाय श्वने स्वाहायमागध मेत्रे वरुणाय बृहस्पदये बृहस्पदे श्वोघ्रे स्वाहा वृष्टिभागेन सोद ेवस्य प्रसवे बाहुभ्याम् भागुम् रक्षसो वधन् जहोमि हतकम् रक्षो वधि स्म रक्षो यद्वस्ते तद्दक्षिणा धात्रेऽपरोडा शन्वादशकपालम् निर्वभत्यलवत्ते चरकुम् रागायै चरकुं सिने बाल्ये चलम् खुक्वै चरुम् विसनौ दक्षिणाज्ञा वैष्णवमेकादशकपालन् निर्वलपत्ययेन्द्रा वैष्णवमेकादशकपालम् वैष्णवन्त्रकपालम् वा मनोमहे दक्षिणाज्ञे भ्रदक्षिणा गोमा पोष्टञ्चलम् जर्ववर्ध्येन्द्रा पौष्टञ्चलम् पौष्टञ्चलग्नस्यामो दक्षिणा वै स्वारुजगवानन्यर्ववृरण्यम् दक्षिणा वारुण्यमयम् चर्म स्व दक्षिणा त्यञ्च निर्गपतिर्ब्रह्मणो गृहे चिरपृष्ठो दक्षिणेन्द्रमेकादशपालकराजन्यस्य गृहर्णभो दक्षिणादित्यञ्चलम् दक्षिणाञ्चलम् परिभृत्ये गृहे कृष्णानाम् नगरे भिन्नम् कृष्णा कोटा दक्षिणा मेघपष्टाचपालकुं सेनान्यो गृहे हिरण्यन् दक्षिणा वार्णं दशकपालकुं सोतस्य गृहे निरष्टौ दक्षिणामारुतगं सप्तकपालङ्गामृत्यक्षिणादाहस्तो दक्षिणामो दक्षिणा गृहेन्द्रां मे पुरो राजमे भगवानं प्रति निर्वपतेन्द्रायां होम जा भूत्वा वृत्रं वध्यान्मये भवति श्वेतायै श्वेतवत्सारे दुग्धे स्वयं मूर्ते स्वयं वचिताौ स्वयः अन्नायै शाखे ज मेत्र स्वयम् कृता वेदभवति स्वयम् दिनम् वर्गे स्वयम् कृतयुग्धः स्वैव अग्ने गृहपदरे पुरोडाचमष्टाकपालं निर्वपरि कृष्णां व्रीहीणागुं सोमाय वनस्पदये श्यावाकञ्छुं समित्रे जग्रप्रथवाय पुरोडाचं द्वादशकपालपाशूनां व्रीहीणागुं रुद्राय पशुपदगे कापिधुकञ्चलं बृहस्पदगेदगेनैवारं चरुमिन्द्राय ज्येष्ठाय पुरोडाचमेकादशकपालं महाव्रीहीणाम् य सत्यायाम् पाराञ्चलम् वरुणाय धर्मपदये यमयञ्चलगु सिता त्वा प्रथमानागम् सुपदाम्पदीनागम् रुद्रपशूनाम् बृहस्पतिर्वाजामिन्द्राध्ये सत्यानाम् वरुण धर्मपदीनाम् ये देवादेवष्याय न मनमित्राय सुमध्वर् महदया य माताधिपत्याय महते जानराज्यायैवो भरता राजा सोमोऽस्वागं ब्राह्मणा भागं राजा प्रजत्यन्नाम राज्यमधाय स्वानुवं वरुणो भो मामन्महि महतस्य नाम सर्वे व्यातावरुणस्याभोमन्येत्रय वेरराजिमता सोष्ठदन्तयज्ञया वेणव्य ष्मा क्रमादि विष्णा क्रान्तमसि अर्थेतस्थापातश्च तूर्य प्रजतश्च मान्दा विश्ववृतश्च जनवृदस्थाग्नेजस्या स्थापामोढीराकुमृतस्थापो देवेन् मधुमतेर गृह्णन् दोर्जस्वती राजसूर्लचितानाः याभिर्नेत्रावरुणावभ्यभिर्जनयाभिरमनगण्डत्वरादेः राष्ट्रदाश्च राष्ट्रम् दत्तस्वाहा राष्ट्रदाश्च राष्ट्रमौष्मै दत्ता े रापः सम् मधुमदेर्मधुमतेर्स्रिव्यर्धम् महिमर्तः क्षत्रियाय वन्वानासृष्टाः शीलतोर्जस्वतिरेर्महि वर्तः क्षत्रियाय दधशेरभृष्टमधि वाचो बन्धस्तपोजाः सोमस्य धात्रमतिशुक्लावः शुक्रेणोत्मनामि चन्द्राश्चन्द्रेणामृतामृतेन स्वाहा अथमारोचगेदानोऽवदानः अस्त्याक्रे वरुणस्तमपाकं शिषम् मातृतवाः सन्तः क्षत्रस्योऽल्पमये क्षत्रस्य योनिरस्या विन्न अर्घ्यर्घृहवधिरा विन्न इन्द्रावृधश्रवा आविन्न पू विश्ववेद आविन्दो मेत्रावरुणा वृता वृधा वा विन्दे द्यावापृथिवी हृत व्रते आविन्दा दे विर्विश्वरो द्याविन्दाय मसा वामुष्पाय नस्या विश्वस्मिन् राष्ट्रे महते क्षत्राय महता आधिपत्याय महते भगता राजा वज्राधिमात्राभ्यस्तजायं व्रत्रम् बध्या शत्रुपाधराश्च पादमाः प्रत्यञ्चम् पादमा जलियञ्च मन्वञ्चम् मा पादृग्भ्यो मा पाद विश्वाः भ्यो पादाष्ट्राभ्यः पाद हिरण्यवन्ना गुडताहं विलोकेऽस्तो परस्परक्षाथामधि चिन्तितिम् च धिष्ठगायत्रे त्वा छन्दसामवदत्र पञ्चरसस्तो जगते त्वा छन्दसामव सप्त ैक विपुंसस्तोमो वैराजगुंसाम निरुणौ देवनामनन्द्रविणमो धामादिष्टपङ्किस्वाचन्द्रावृणवत्रिपुंसौ स्तोमौ शाकरैवते शुप्रज्योदिष्टचिप्रज्याष्ट ह्यज्योदिष्टज्योदिष्माविष्टहत्यश्च तास्थात्यगुहा ग् स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्पत्ये स्वाहा भोष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहा पुंशाय स्वाहा भगाय स्वाहा क्षेत्रश्रवदये स्वाहा पृथिव्ये स्वाहा वनःपदे स्वाहाद्भ्यस्वाहाद्भस्पाः स्वाहा सोमस्य मृत्योन्मा पाहि दृत्योन्मा पाष्ठादम् दशो गाणिरस्तन्नमुचे शिरः सोमो राजा वरुणो देवाधर्मसुमष्टये ते ते पाचकम् सुवन्तान् ते ते प्राणगुम् सुबन्तान् ते ते चक्षुः सुवन्तान्ते श्रोत्रगुम् सुवन्तां गोमस्य त्वाद्युम्नेनाभिरुञ्चान् यज्ञेस्ते च सा सूर्यस्य वर्ततेन्दस्येन्द्रियेण मित्रावरुणयो वीर्येण वरुतामोदः क्षत्राणाम् क्षत्रपटिरस्य दिवस्पाहि रन्ते स्ताः पर्वतस्य प्रणमस्य पृष्ठे नामश्चरन्ति स्वसिचरियानामलस्मे हुतमसि यमेत्तमसि प्रजापतेनत्वन्यो विश्वा जाता निपरिता बभूव यत्कामास्ते तु ममस्तन्नो अस्तु पयज्ञस्यामपयोगीना इन्द्रस्य वज्रादिमास्त्वजायम् वृत्रम् मध्यान्मित्रावर्णयोस्ता प्रशास्त्रायिनज्येज्ञस्य योगेन विष्णा क्रमाधिविष्णा क्रान्तमधिविष्णार्विक्रान्तम् पृथवे देशमाप्तम् मनसमहमिन्द्रियेण वेद्येण पशो माम् मन्यर्भोजान्नमो मात्रे माता पृथिवी हिगुङ्युरस्यायम् मेधेष्टोर्जस्योर्जम् मेधे हियुङ्गधिवच्चोच्चोमयिधे यज्ञज गृहपदजे स्वाहा सोमायनश्व स्वाहेन्द्रस्य बलाय स्वाहा मरुता मोचते स्वाहा पुंसस्तु जिदत्वसुरन्तरे क्षद्भवता वेदिषदति चर्दुरो ृदृतसपदब्जा गोचार सजाद्रिजा हृतम् बृहते मृत्रोऽवरुणोऽशि समहम् विश्वे वेलैः क्षत्रस्य नभिरतिक्षत्रश्रियोरतिस्यो नामासीर सुरतामासीदमात्माहिगंसेन्माहिगंसेन्द्रियसार धृतव्रतो वरुणः पस्त्या स्वासाम्भ्राज्याय सुक्रम् ब्रह्मा स्वगुं राजन् ब्रह्मासि तमितासि सत्य स भो ब्रह्मागुं राजन् ब्रह्मासेन्द्राति सत्यौजा ब्रह्मागुं राजन् ब्रह्मासि मित्रोऽधिषेभो ब्रह्म राजन् ब्रह्माधिवरुणोऽसि सत्यधर्मेऽङ्गस्य वज्रज्वार्त्रभ्यस्तेन मे रध्यनि शोभ्योत् सोमङ्गत्यरा स्वान स्वाहात्र स्वाहा गृह स्वाहा ष्टाकपालन् निर्मपति हिरण्यम् दक्षिणासारस्पञ्चलम् वत्स धले दक्षिणाम् द्वादश पालव भद्रस्तो दक्षिणा ओषञ्चलश्यामो दक्षिणाभार पत्यञ्चल वंसि वृष्टो दक्षिणैन्द्रमेकादश कपालव डभो दक्षिणाभारणम् दशकपालम् महानिरस्तो दक्षिणा सौम्यञ्चलम् भद्रम् दक्षिणा बाष्पमष्टाकपालकम् शुण्ठम् मनो दक्षिणा वेमन्त्रिकभालम् वा मनोदक्षिणा क्षयन्ति सद्यः सोमं क्रीणन्ति मुण्डलि श्रिताम् प्रयच्छति दशभित्सधरे सोमं क्रीणाति श्रमेय भवति शतम् ब्राह्मणाम् भवति प्राकाशावध्वर्यवेददाधिक्मगुम्होत्रेष्वम्भोद प्रतिभातृभ्यान् द्वादशवष्ठौ ब्रह्मणे वशान् मे वरुणाय ्रह्मणाक्षंसिने वासी द्रभ्राजस्तूर्यवाचिदवच्चावाय नत्वाहमग्ने भाग्रवो हता भवति श्रयन्तेयम् ब्रह्मसामम् भवति वारवन्तीयमग्निकाम सामगुंसारस्वती नवो गृह्णाति आग्नेयमष्टाकपालन्यर्भवति हिरण्यम् दक्षिणैन्द्रमेकादश कपालमठभो दक्षिणाभयेष्वेवञ्जलम् विलङ्गे पष्ठौ हि दक्षिणाभये वरुणे वामिक्षा वसा दक्षिणाभागस्पत्यञ्चलकंसित पृष्ठौ दक्षिणा दृत्याम् अदधाम् दर्भिणे मानभते रस्पदे सत्यवाचे जगकुन्धवित्रे सत्यप्रथमाय पुरोधा शम्बादशकपालन्ति स जम्बगुन्धे निर्दक्षिणा आेयमष्टाकपालम् निर्मपदि सौम्यम् चलपुंसात्रम् द्वादशकपालम् बालस्पत्यञ्चलम् द्वाष्ट्रमष्टकपालम् वयश्वाचलम् द्वादशकपालम् दक्षिणारसवाहन बाहो दक्षिणाधारस्पतञ्जलम् निर्मपदि पौष्टञ्चलम् मयेतञ्जलम् वारुणम् जलम् क्षेहेत्रभक्त्रिञ्जलमादेत्रिञ्चलमुत्तरारसवाहन बाहो दक्षिणा स्वाः स्वासुना देव्राम् देवेनामृतामृतेन सृजा विषयम् सोमेन सोमाः शस्यभ्याम् पच्य सरस्वद्दे वचस्वेन्द्रायशुद्धान्ने पच्यस्व पुनात्ते परिश्रुतकम् स्वमकम् दुहिता पारेण शश्वतातमाः वायः पोतः पवित्रेण प्रत्यम् इन्द्रस्य नित्यः सखाः कुविदङ्गजवमन्तोजवन्त्यथानपूर्वम् वियोज विषाम् कृतभोजनानिषो नवोक्तिम् न जग्मु आश्विनन्धोतेन्द्रमेकादश कपालम् निर्वपदिदा मेत्रम् द्वादश कपालम् वा दशकपालकम् वामप्रदेकास्तुरस्त्रप्रदमडवालक्षिणा अर्ग्नाविष्टोपथितद्वाम् महित्वम् वेतम् खिलस्य गुप्यानि नाम रमे तमे सत्वरत्रादशा अग्नाविष्टोमधिधाम प्रियम् वा वेदोभृतस्य लुह्याजुषाणा दमे दमे दृष्वदेर्वा वृधाना प्रतिवान् जक्वाभृतमुच्चरण्ये प्रणो देवे सरस्वती वाजेभिर्वाजि नैव नाम विद्यवतो आनो दिवो बृहतः पर्वता चातनस्पति यज्ञम् भवन् देवीजुषाणाघृताजे शग् नो वाचमुषती शृणोतु बृहस्पतेजुषस्व नो हव्यानि विश्वदेव्या रास्वरत्राणि दाशिषे देवावित्रे विश्वदेवायवृष्णे यज्ञेऽर्विधे मनमसा हविद्भिः बृहस्पते तु प्रजा वीरवन्तो वयज्ञस्यामवयोरयेनाम् बृहस्पति अलियुमद् निभानि क्रुतुमज्जनेषु यद्येत यच्छमधर्थप्रजातस्मादुद्रविणन्धे हि चित्रम् आनोमिद्रावरुणाघृतेर्गव्योतिमुक्षतम् मद्भारजागम् सुभाहवादिसृतम् जीवसेनानो गव्योतिमुक्षतम् घृतेन श्रवयुतवानः श्रुतम् मे मेत्रावरुणाहवेम अग्निम् वः पूर्यङ्गिरा देवमी देवसूरा सपर्यन्तः पुरप्रियम् मित्रम् नक्षेत्रसाधसम् मक्षो देववतो रथः शूरो वा वृत्सु वासुचित् देवाना इयिन्मनो यजमान इयक्षत्यभेदयज्वलोऽभुवत् न यजमानरिष्यम् वानदेवयो असदत्त्व सुवीर्यभृतत्यधाश्वयम् न कष्टम् कर्मणानशम् न प्रयोषम् न योषति च यक्षमाणम् च धेनवः प्रणन्तम् च बपुलम् च स्वभस्यवो भृतस्य विश्वतः सोमा रुद्राविदृढतम् विशु जीवमे वाजानो निर्मितिम् पदा चैः कृतम् जितेन प्रमुक्तमस्मत् सोमा रुद्रायममेतान्यस्मे विश्वा तनोषु भेदजानि धत्तम् अपश्यतम् मुञ्चतयन् नो अस्ति तनोषु भद्रम् कृतमेनो अस्मत् सोमा पोषणा जननारयीणा जननाधिवो जनना, जनना, जनना पृथिव्याः जातो विश्वस्य भुवनस्य गोपो देवा अगृण्वन्नमृतश्च नाभिम् इमौ देवो जायमानोऽषन्ते मौतमा पुंसि गोहतामजुष्टा आभ्यामिन्द्रपक्वभावः सन्तः सोमाभ्याहम् जनदु श्रियासु इति प्रथमकाण्डः समाप्तः द्वितीयकाण्डः ग् विश्वेतमालभे तभोतिकामा वायुर्वेक्षे पृष्ठा देवता वायुमेव स्वेन भागधे येनपधावति स देवैनं भूतिं गमयति भवतिक्षिप्रा देवतेत्याहुस्सैनमेश्वराप्रदहयेत्येतमेव सङ्गं वायवे अस्य धृति धृत एव भूतिमुपैत्य प्रदाहाय भवय नियत्पदान भेद ग्राम गामा वायुर्वाणि मा प्रजानस्योतानि नीयते वायुमेव ये प्राणाबालौ खलु वा तस्य प्रजाया अपक्रामतो योऽलम् प्रजा एषन् प्रजान्न विन्दते वायमेव नियत्वं तर्गस्मै न भागधेयमावधावधिवास्मै प्राणाबालाम् प्रजाम् प्रज नयति विन्दते प्रजाम् वायवे नियत्वदानभेदज्जोगामया वे प्राणा वै वायरबाला खलु वारे तस्मादपक्रामो यामयति वायमेव न यत्पन्थस्मिन्त्युदयदेताभवति जीवत्येव प्रजापचर्वाजमेकाधे स्वकामय तत् प्रजा पशुन्सृजयति स तोजस्तो परस्समभवत्यज्ञस्वायै देवतायालभदयतोपै स प्रजा पशूनसृजदयः प्रजागाम पशुकामस्या एतम् प्राजापत्यमजन्तो परमालभेन प्रजापतिमेव भागधे येधापधावधिस्मै प्रजाम् पशून् प्रजनयति यत्मश्रुणस्तत् कुरुधानागुङ्गोपै यत्तो परस्त्रस्वा गन्तग्रवाञ्जव्यायव सभास्तदवेजस्तदजानामेतावन्ताङ्ग्यामस्तान् रूपेणैवावरुन्धे सोमापोष्णन् वेदमानभेदशुका भोद्गौ वा अजायेस्तनौ नानयै देवोर्जम् पुष्टिं त्रिजेयस्वमाभूषणाेव स्वेन भागधे यै मा स्मे पशून् प्रजनयतस्व भो वे लेतोधाः पूषा पशूना प्रजनयता सोपयेवास्मै लेतोदधाति पूषापशोन् प्रजनयत्यौदुम्बराजोपभवत्योर्गा उदम्बरौर्पशरभूर्जैवास्मावोर्जम् पशूनवरुन्धे जा सृत ततास्माच्छ्रष्टाः पराचीरायन्ता वरुणमगच्छन्तान्भयताः पुनरया च तथा अस्मै पुनरसाम्बरमानभरसकृत पुनर एकशितिपादभवत्यो वरुणगृहे तस्याम्बारुणम् कृष्णमेकशितिपादमानभेदवरुणमेवस्पेन भाकथे कृष्ण तमसा विध्यत्तस्मै देवा प्रायश्चित् मयच्छन्दस्य यत् प्रथमन्त सा विष्णा विरभवत्य द्वितीयपुंसा फल्य तृतीयपुंसा बलक्षेयभ्यस्तादपाकन्दान् सा त्यवाब्रुवन्देव वशुर्वायत्कस्मायममानप्स्यामहयै च वेतह्यल्पा पृथिव्यासीतजाता ओषध यस्तामलिं वशामादित्यभ्यःकामाया नतो वा प्रसत पृथिव्यजायन्तौषधयो यः कामयेधप्रत्य प्रत्यया जायेतामलिं वशामादित्येभ्यः कामाया न का भग्रस्वेन प्रथयन्ति पशुभ्यप्रजया जनयन्त्यसावादित्योऽचत तस्मै देवाः प्रायश्चित्रिमेच्छन्तस्मा येतालभन्ताग्ने दृष्टेवेम्भिता मयेन्द्रेश्वेताम्बाहस्पत्यान्ताभिदेवास्मिन् ब्रह्मवत्यस्माय ज्ञेये कृष्णग्रीवेगुंसगुंहिता महेन्द्रेकश्वेता देवदेवताश्वपधावस्मिन् ब्रह्मवर्चन्द्रिब्रह्मवर्चस्यैव भवति प्राधना ज्ञेये कृष्णग्रीवे मालभे दग्रेस्मिन् दिने सगुंहिता महेन्द्रेगुंसव्य ेताम्बालस्पत्यान्त्री वा आदित्यश्च ते जागुम्जि वसन्ताः प्रातभ्येष्मे वध्यन्ति नेशद्यपराह्णे यावन् देव ते जागुम्जितान्येवावरुन्धे संवत्सरम् वर्यालभ्यम् दे असंवत्सरो ब्रह्मवक्षसस्य प्रदाता संवर्धन एवास्मै ब्रह्मवक्षसं प्रयच्छति ब्रह्मवर्त्रस्यैव भवति भवन्ति वैरथैन्द्रियमेवास्मिन् मे लेवाचो वचितोमेवस्पेन भागधे जैनोपधावस्मिन् वाचं दधा वाच भवत्यपन्नदति भवति तस्मान् मनुष्या सर्वां वाचं वदन् कृष्णवानभेदसौम्यं बभ्रं जगामया यज्ञं वाहेतस्य शरीरं गच्छति सोभगुं रसो यस्य जगामयत्यज्ञेरैवास्य शरीरं निष्णेना सम्भवृजीवेव सौम्यं बभ्रुमानभेदा ष्णग्रेवं प्रजाकामस्वमो वैरे दोधा अद्य प्रजानाम् प्रजनयिरादोमये वा स्मैरे दोदधास्यद्य प्रजां प्रजनयलिविन्द प्रजा मनो विद्या मनो ज्ञेयो भवति यज एव स्विन्देन दशाधिजत् सौम्य ब्रह्मवत् चदन्तेन कृष्णग्रीवा ज्ञेयो कृष्णेवमालभेदसौम्यम् बभ्रुमा ज्ञेयम् कृष्णेवम् पुरोधा पुरये न दधते देवासुरालेषु लोकेष्वस्पर्धम् दधयेतम् वृत्तर्वा मनमपश्यत्यग्रस्माजी देवतायालभज ततो वैषयिमान् लोकानभ्यदयद्वैस्तवम् वा मनमानभेद स्पर्धमाना विष्णुदेव भू त्वेमान् लोकानभिजयति विषमानभेद विषमायि वही मे लोकाः समर्ध्या इन्द्रायमन्यपदे वनस्पदे नामम् प्रासङ्गमानभेद सङ्ग्रामे यस्मेन भागधे येनोपधामधिष देवास्मिन् सक्षमानभेदग्रामकामैन्द्रमेव भलत्वन्त यस्पेन भागधे जेनोपधामधिष एवास्मि च जातान् प्रयच्छति ग्राम्येव भवति यत्कृष्टेन मारुगस्वध्ये भवति पश्चादन्वधायिनेवा श्रीविशङ्करोति सौम्यं बभ्रुमानभेदान्न कामसौम्यं वा अन्नोधापति सेवा स्मा अन्नं प्रयच्छत्यन्नादेवभवत्येतद्वा अन्नस्य लोपगं समध्ये सौम्यं बभ्रुमानभेदयमलगौ राज्यायसन्त राजन्मापनमे राज्यं सोममेव स्मेनवास्मै राज्यं प्रयच्छत्युपैनस्य मन्त्रा मामभेदस्य प्रतिष्ठा काम आत्मानमेव वर्तन्ते प्रतिष्ठां गच्छतीन्द्रायाभिमा ेन प्राङ्गमान भेदयः पात्माभि हेदस्यात् पात्मा वा अभिमानिरेन्द्रमेवाभिमानिह भद्रम् प्रयच्छति सरेण वज्रभूत्या इन्धुप्रैलम् राज्यं नमति रमप्रादङ्गभवत्यैरत्वलोकम्